हरि ओम् ग्रै गणेशाय नमः अथ शिवपुराणमात्मे तृतीयोऽध्यायः देवराजमुक्तिवर्णनम् शौनक उवाच सुतसूत महाभागधन्यत्वम् परमात्मेत् अद्भुतयम् कृता दिव्याश्राविता कृपयायिन अघोघविध्वंसकले मनःशुद्धिविधायिनि कि सन्तोषजननी कथेयम् न श्रुताद्भुता एतत् कथा समानम् न भुवि किञ्चित् परात्रम् निश्चयेनेति विज्ञातम् अस्माभिः कृपया तव के के विशुद्धन्त्यनया कस्यापि न कलौ वदतान् कृपया सूतकृतार्थम् भुवनम् कुरु श्रूत उवाच ए मानवा पाप न्यान ये मानवा पाकृतो दुराचाररताकला कामादि नृता नित्यम् तेऽपि शुद्ध्यञ्चनेन वै ज्ञानयज्ञ परोऽयं वै भुक्तिमुक्ति प्रदत्सला शोधनम् सर्वपानाम् शिवसन्तोषकारक कृष्णाकुलां सत्यहीना पितृमातृविदूषक दाम्भिका हिंसका ये च तेऽपि शुद्ध्यञ्चनेन वै स्ववर्णाश्रमधर्मेभ्यो वर्जिता मत्सान्विता ज्ञानयज्ञेन तेन सम्पुनन्ति कलोऽपि क्षणच्छद्मकरा ये च ये च क्रूरा सुनिदया ज्ञानयज्ञेन तेन सम्पुनन्ति कलोऽपि ब्रह्म स्वपुष्टा सततं व्यभिचारता चे ज्ञानयज्ञेन तेन सम्पुनन्ति कलोऽपि सदा पापरता ये च ये च दुराशया ज्ञानन्ति कलोऽपि बलिना दुर्दर्यो शान्ता देवता द्रव्यभोजिन ध्यानयज्ञेन सम्पुनन्ति कलोऽपि पुराणस्यास्य पुण्यम् सन् महापातकनाशनम् भुक्तिमुक्तिफलम् चैव शिवसन्तो च हेतुकम् अत्रैव उदाहरन्त्येवम् इतिहासम् पुरातनम् यस्य ये श्रवणमात्रेण पापः निर्भवचलम् आसीत् किरातनगरे ब्राह्मणो ज्ञानदुर्बलः दरिद्रो रसविक्रेता देवधर्ममुख सन्ध्यासान् परिभ्रष्टो वैषवृत्तिपरायणः देवराज इति ख्यातो विश्वस्तजनमञ्चकः स विप्रान् क्षत्रियान् वैशान् शूद्राश्चापि तथापरान् हस्तानाना विषयेणैव तत्तद्धनमपाहरे अधर्माद् बहुवित्तानि पश्चात्तेनार्जितानि वै न धर्माय धनम् धर्म तस्य स्वल्पश्चापीह पापिन हे एकदा एकतडागे तु स्नातुम् ज्ञातो महीसुर वेषाम् शोभावतिम् नाम दृष्ट्वा तत्रातिविह्वले स्ववशम् धनिनम् विप्रम् ज्ञात्वा सुन्दरी वार्तालापेन तच्चित्तम् प्रीतिमत्तम् अजायते श्रियम् सताम् मेनेपतिम् कर्तुम् च सा तथा एवम् कामवशो भूत्वा बहुकालम् विजर्हतु आसने शयने पाने भोजने क्रीडने तथा दम्पतीव सुधादौतु बवृता परस्परम् मात्रापित्रा तथा पत्न्या वारितोऽपि पुनः पुनः न मन्यतव च तेषाम् पापवृत्तिपरायण एकदीर्षावशात् रात्रौ मातरम् पितरम् मधुम् प्रसुप्तान्यवधिष्टो धनम् तेषाम् तथा हरे आत्मदीनम् पित्रा दीनाम् तथा धनम् वैश्यायै दत्तवान् सर्वम् कामि तद्गतमानसः स्वभक्ष भक्षकृपाती मदिरपानलालसः एकपात्रे सुलाभौक्षि वेश्यो ब्राह्मणा कदाचिद् दैवयोगेन प्रतिष्ठानम् अपागतः शिवालयम् ददर्शासो तत्र साधूयनावृतम् स्थित्वा तत्र च विप्रोतो ज्वरे लाति प्रपीडितः शुश्राव सततं चैवीं तथा मखोद्गताम् देवराज्यच्च माता ज्वरे लीडितो मृतः बद्धो यम भटे पाशे नीतो यम प्रमलात् तावत् शिव शिवलोकात् समागत्य क्रुद्धाय मां ययुः ताडयित्वा तु देवराजम् समामोच विमाने परमाद्भुते उपवेश्य यदा दूताकैलासम् ग्रन्थमुत्सगात् तदा यमा पुरी मध्ये महाकोलाहलो भवेत् धर्मराज श्रुत्वा स्वालयात् बहिरागमगमयत् दृ्ट्वा चौदूताद्रापरा पूजयामास धर्मजो धर्मराजो यथाधि ज्ञान चक्षुषावृत्ता ज्ञातवा भयात् पृछवान्चि शंभो दूतात्म पूजिता प्राथिता से वै कैलासमगम्तरा तदुशिवाय सांबा तम दया वारी राशि कन्याशिव पुराण्यस्य कथा परमपावनी यस्या श्रवणमात्रेण प्रापीयानपि मुक्तिभाक् सदाशिव महासानम् परम् धार्म परम्पदम् यत् आहुर्वेद् विद्वांस सर्वलोकोपरिस्थितम् ब्राह्मणा क्षत्रिया वैश्या चुद्रान्ये पित्राणिनः किञ्चिता धनलोभेन बहुवो पापिना मातृपितृवधूहन्ता वैश्यागामी च मद्यपः देवराजो द्विजस्तत्र गत्वा मुक्तो भवेत् क्षणात् इति श्रीकान्दे शुपुराणमात्मे देवराजमुक्तिवर्णम् नाम द्वितीयोऽध्यायः श्रीगौरी शङ्कराभ्याम् नमः